सहदेव देव उवाच यज्ञविघ्नमिमं कर्तुं नार्हस्त्वं हव्यवाहना एवमुक्त्वा तु माद्रेयः कुशैरास्थिर्य मेदिनीम् पावकं प्रत्युपाविशत् प्रमुखे तस्य सैन्यस्य भीतोद्विग्नस्य भारता न चैनमत्यगाद्वह्निर्वेलामिव सहदेवं दधिः तमुपेत्य शनैर्वह्निरुवाच कुरु नन्दनम् सह देवं नृणाम् देवम् सान्त्वपूर्वमिदम् वचः उत्तिष्ठोत्तिष्ठकौरव्या जिज्ञासेयं कृता यावद्राज्ञो हि नीलस्य कुले वंशधरा इति ईप्सितं तु करिष्यामि तप उत्थाय हृष्टात्मा प्राञ्जलिः शिरसानतः पूजयामास माद्रेयः पावकम्भरतर्षभा पावके विनिवृत्ते तो नीलो राजाभ्यगात्तदा पावकस्याज्ञया चैनमर्चयामास पार्थिवः सत्कारेण नरव्याघ्रं सहदेवं देवं युधां पतिम् प्रतिगृह्य पूजां करे च विनिवेश्य च माद्रीसुतस्ततः प्रायाद्विजयी दक्षिणां त्रैपुरं सवशे कृत्वा राजानममितौ निजग्राहमहाबाहुस्तरसा पौरवेश्वरम् आकृतिं कौशिकाचार्यं यत्नेन महता ततः वशे चक्रे महाबाहुः सुराष्ट्राधिपतिं तदा सुराष्ट्रविषयस्थश्च प्रेषयामास रुक्मिणे राज्ञे महामात्राय धीमते भीष्मकाय